ृत्रिवारम् वेपन्तर्वाच्यते नै मृतः पूर्णमाशेन भवति मृतगेवतेन गिजमानोपहत इन्द्रो भृत्र देवताभिश्चेन्द्रियेण कुर्व्यार्थेतमा ज्ञेयमष्टाकपा मावास्यायामपश्येन्द्रन्दधितन्यरवभत्ते न वेश देवता श्रियं चा वारुं जगदाग्नेयोपाकपालो मालास्यायां भवत्तेन्द्रं दधि देवताश्चैवते नेन्द्रियं जगजमानो वरुन्धेन्द्रस्य वृत्रं जघृग इन्द्रियं वीर्यं पृथिवी मनव्या ्या रक्ततोषधयो वेदतो भूपर्ण्यदित प्रजाप यत् पशो समनघन्तत्प्रत्यदुभयत् समनघं तत्साय्यस्य सान्नायस्मै यत् प्रत्यदुभन्तः प्रतिधुप्तकम् समनेषु प्रत्यदुःखण्डतु महिश्रयदैत्यब्रवीदेतदस्मै श्रुतम् कुरु चेत्यब्रवेतदस्मै शुतमकुर्वन्ेन्द्रियम् वाभास्मिन्वेर्यन्तरश्रियम् तच्छुतस्य च तत्तगम् समनेषु प्रत्यदुःखम् क्षुतमः खण्डतुमाभिनोति स्मै दधि कुरुते तदस्मै त्यूर्वं तदेध्रो दधित्वं ब्रह्मवादिना वदन्ति पूर्वस्यात्यनाधित्यक्षस्यैव पूर्वस्यावद्यदिन्द्रियमेवाद्यन्द्रेर्यग्रश्रित्वा ध्रोपरिष्टाद्योति यथा पूर्वमुखैकैरवाहन्न ौम्यं तद्ये राक्षसञ्चमभ्यासनत्या इन्द्रभृत्यगच्छतन्यमानस्तं देवतात्रय जापर्य प्रथमो न विन्दलिलस्य प्रथमं भागधे गणयितं पितरान्वन्दस्मा पूर्वेद्य सो माभास्याम् प्रत्यागच्छत्तमगच्छन्तामा वेनोद्यवसमी तेन्द्रोहि देवानां वसुदमाभास्यायामावास्य तम् ब्रह्मभा न्ति किम् देवत्यगुधान्ना्यमिति वैश्वदेवमिति ब्रूयाश्वेऽभितद्देवाभागधेयमभिगमगच्छन्ते यथो खल्मीन्द्रमित्येव ब्रूयादिन्द्रम् वावते तद्भिषद्यन्ताभिगमगच्छन्तेति ब्रह्मपादिना वदन्ति सत्त्वे दर्शवोऽन्नमासौ यजय जयेनौ सेन्द्रौ यजय जयति वै वृथः पूर्णमासे निर्भाप्यो भवति तेन पूर्णमासस्येन्द्रैन्द्रन्दभ्यमाभास्यायान्तेन माभास्यासेन्द्राय एवं वित्रान्दर्शवोर्णमासौ यज तेधेन्द्रायेवैनौ भवति देवा वैर्वदते देवा एतापृष्टिमपश्यन्नाग्ना वैश्वमेकादशपादगुं सरस्वती जलगुं सरस्वते चलन्ताम् पौर्णमादगं सद्गस्थाप्यानुनिरवन्ततो देवाभवन्परादुराग भ्रातुर्व्यपौर्णवादगं स गाप्येतामित्यमनर्प्रवेत् पौर्णमादेनैव वज्रं भ्रातुं याय प्रभृत्याज्ञावयेत् नवेन देवदाश्च भ्रातुं यस्य विन्दे मिथुनान् पशुन्सारस्पदाभ्याङ्गावेवास्यास् यत्सर्वं विन्दे पौर्णमासीमेव यजेतभ्यादुर् यन्नामा वा स्यागं हत्वाभ्यादुर्व्यन्नाव्याये स्थायै यस्मै माहरन्दिनात्मनादृप्यदिनान्यस्मै ददाति यस्मै महतादृप्यप्यात्मना ददाप्यन्यस्मै महता पूर्णगुम्भो दव्यम् धृत्तयैवैरविन्द्रः प्रजया पजुभिस्तर्पे दिदानुभाग्रेण जो दिनभिमाहुतिमानसहुदुम्बरं भवत्यौर्वाहुदुम्बरवोद्य स्वागोर्जम् पशोरवरुन्धे नागदश्रे महेन्द्रञदत्र योगे गदर्शयष्णुवान्द्रामणिराजन्यस्तेताम् महेन्द्रो देवता यो वे स्वान् देवतामति यजते प्रस्वागे देवता ये श्रवतेन पराम् प्राप्नोतिपापीयान् भवति संवत् स्वरमिन्द्रं जयम् प्रसन्ना देवते संवत्सरस्य पदस्तादग्नये व्रतपदयमष्टाकपालम् निर्वह संवत्सरमेवेदम् वृत्रम् च घ्निभागम् समग्नम् प्रतपदर्पतमालम्भयति ततोऽधिकामम् जनेता सोमया जेतन्नयेतनागतम् वागेतस्य पर्योयोऽ सोमया जीयत सोमया जीसन्नयेत्परिमोच एव सोमृतम् करोच्यसोपरेव सिच्यते सोमयाद्येव सन्नयेत्पयो वे सोमप्पयः सान्नाय्यम् पयसैव पय आत्मन्धत्ते विवागेतम् प्रजया वशुभिरर्थयति वर्धयत्यस्य भ्रातुर्व्यङ्ग्यस्य हविर्निरक्तम् पुरस्ताः न्द्रमा अभ्युजयत्रयधा तण्डुलान विभज्यमास्तुन्द्राय प्रधानिष्ठास्तानमिष्टमेवास्मै प्रजान् प्रजनगति वृद्धामिन्द्रः प्रयच्छति यज्ञामे विष्टस्य एव ष्ठदिनद्वे निजेतजपूर्वया सम्प्रदयजेतोत्तरया शम्भक्वर्याद्युदोत्तरया सम्प्रदयजेतपूर्वया सम्भक्वर्यान्भवदिन यज्ञस्तदृतयेकामेव जेतप्रगर्भोऽस्य जागते नादृत्य तद्वे एव हि जेत यज्ञमुखमेव पूर्वया लभत्तरया देवता एव पूर्वया पद यमुत्तरया देव लोकमेवजयति वर्षलोकमुत्तरया भूयतो यज्ञकृतोऽनुपये जेधा मे सुमना मेयनम् यस्मिन्नेवात्मै लोकेऽर्धुकम् भवति दाक्षायण यज्ञेन सुभर्गकामो यजेत पूर्णमा सेतन्नरेन्मयित्रावरुण्यामिक्षयामाभास्यायां यजेत पूर्णमा सेवै देवानागुसुरस्तेषामेतमर्थमासंसुरस्तेषा मयित्रावरुणे वशामा भास्यायामनो बन्ध्यायतो यज देवेति दे दे मेपदत्करोति यद्वत्सानपाकरोति सदोहव्यने जत्यागम् सम्पादयति से समर्थमासगं समादम् देवै स्वामम् पिबति जन्मये यत्रा वृण्यामि क्षयामाभाजते यैवासो देवानासो देवैतस्य साक्षात् ोहति साकवे ्यारूढः कामय चेतथाभ्यदिपापीयान् भवति न भविभ्यति स्यावृत्कामये च यज्ञेन यजेतक्षुरभवृत्त्येत यज्ञश्चायः पुण्यो वा भवति प्रभामीयथेतस्यैतद्वदन्नानृतं वधेन्न वाकं समष्टियान्नस्त्यन्नास्त्य पङ्कोलने न वासः पङ्कोलेन सर्वम् न कुर्वन्ति स <susurra> सो यत्तर्शपोऽन्न मासो योदर्जपोऽन्न मासा विश्वासो पूर्णमासोज एवं वितां दलशपोर्णमासो यजतेभ्यामेव सुभर्गं लोकमनपश्चामे देवानां विक्रान् यद्दृशपूर्णमासोज एवं मृतान् दलश पूर्णमासो यजते देवानामेव विक्रान्मविक्रमलेशेवजानः पन्थायद्दलश पूर्णमासोज एवं विद्याञ्जलपौर्णमासो यज तेज एव दे भगानः पन्थाष्टगं समारोहत्येतौ वै देवानागुं हरि यद्दर्शपूर्णमासो जं विद्वां दर्शपूर्णमासो यज ते यामेव देवानागुं हरिताभ्यामेवैभ्यो हव्यं वहत्येतद्वै देवानामास्यै यद्दर्शपूर्णमासो यदेवं विद्वान् दर्शपूर्णमासो यजते साक्षादेव देवानामा नमास स्तेजो प्रातरग्निर्णमासाद्धानि नागं सुतो विन्तर्शपूर्णमासौ गजते हविश्च परिशिष्ट्यं दत्तं भवति देवापुनन्तौ वा रुश पौर्णमासौ एवं वृत्तान्तर्श पौर्णमासौ यजते भूतामेवै नो मे ज्यौ यज ते नामाभास्यायाञ्च पौर्णमास्याञ्जस्त्रियमुपेयाजुपेयान्निन्द्रियस्या सोमस्य वैराय मासस्य रात्रयः पत्रया सन्तासाममाभास्याञ्च पौर्णमासे ेधान्तै यक्ष्मः क्षद्रा नै लक्ष्मःलक्ष्मस्य जन्म यत्पापि यानभत्तत्पापलक्ष्मस्य यध्यायाभ्यामविन्दत्तध्यायेन्यस्त यगेव मेते धाय यक्ष्माणाञ्जन्मवेदनैरमेते लक्ष्माविन्दन् तिसगेते एव नमस्त्यन्मपा भक्ते अब्रूतां परं वृणावहा दे देवा इद्यान्ता इति सदृशी नागौरात्रे नाम माभास्यायाम् च पौर्णभास्याम् च देवा इद्यन्तरे च दे हि देवानाम् भागधे भागधा अस्मे मनुष्या भवन्ति य एवम् वेदभूता सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरेव नस्पदयस्तस्मादहरहर्मनुष्या असनमिच्छन्ते अर्धमासे देवा विद्यन्ते मासि पितृभ्यः क्रियते संवत्सरेव नस्पदयः फलम् गृह्णन्ति यगेवम् वेदहन्तिक्षु ेन यजुश्च्यश्रयन्धते धामन्मेवाश्रयन्त हिङ्करोति सामेव करिहिङ्करोति यत्रैव देवाश्रयन्धत एवैनान् प्रयुञ्जयिङ्करोति वाचगेवैषयो गोभिङ्करोति त्यासौ रदामपहत्ते रासन्तरें प्रथमामन्वा हरासन्दरोमा अयं लोक इममेव लोकमभिजयदित्र विगृह्णादित्रे इमे लोका इमानेव लोकानभिजयतिवार्हजेमुत्तमामन्वाह पारुहतोमा असौ लोको मुमेव लोकमभिजयति प्रभो माजायित्यनिरुक्तां प्राजापत्यामन्वाहयज्ञो मे प्रजापतिर्यज्ञमेव प्रजापदिमारभजय प्रभो बाजा इत्यन्वाहान्नमेवावरुन्धे प्रभो बाजा इत्यन्वाहतस्मा राजेन कुण्डेतो प्रजायन्ते प्रभो वाजायत्यन्वाहमासा वै वाजां देवान्धेयङ्कामगे सर्वमायनुजा समुत्तरमर्थमालभेदप्राणेनैव वा ेवभ्रातरु व्यङ्कुरुतेर्वा एतानितागत्सामिधेन्यस्तागतसंयुक्तास्य प्रजया वसुभि संयुशक्ते वैधास्ता अस्मै संयुक्ता अवरुद्धा यज्ञोपादेशयो सामाज्ञायाहि वीरजमित्याह रथंकर श्रेर्णस्तन्ता समिद्धिरङ्गिरमित्याह वामेवत्याह बृहदेषादित्युवन्ने aryo bhame tyak इत्यस्मिन् लोके नमस्मिकाधित्यन्तशाम्यधान्यदेवमन्वाहाय लोकयो श्रान्त्यैषाम्यतोऽस्मादिमो लोको यगेवं वेद पञ्चदशतामिधेये अन्वाह पञ्चदशतार्धमासस्य रात्रयोर्धमासम् शरानिश्च संवत्सरस्वत्रयोक्षरशयत्सर माधश्च परुक्षेव ब्रह्मवाद्यमवदे नामस्मिन् लाले क्लिञ्जनया वय भलो न निर्वेदोऽभ्यवधत्सो मम जनयन् मरुक्षेपोऽसमाकथात्मज्ञामिणम् वेदेश वर्णस्तन्ता समिध्यङ्गणिहतामिधेने श्रेमदज्योतिर्जनयदस्त्रियस्ते नगदस्त्रियस्ते नगद्गायत्रि अस्त्रियश्च नयत्सामिधे ुन्ध प्रजापदग्निं दोतं वृणेम हयत्रभिभर्यावत्रो देवाभवन्ते विदुषाग्नन्दोदम् वृणेम हयद्रन्वा भवत्यात्मनापरास्य भ्रातरु and then the य सर्वोध्वमभ्याप्यसायपस्कन्द्रादत्र आरुधेयम् वृणेते बन्धो देवने तस्मा परस्ता दर्वान् च मनुष्या वितरो न प्रतिपदे अर्गे महागुम् असेत्याह महानित्यैक्यब्राह्णेत्याह ब्राह्मणात्यैकभारतेऽत्याहैषहि देवे द्रोहव्यम् भरति देव त्याहमर्त्यमुत्तरो देव्याय कविशस्तह कवयो चेते यक्षवायुंस ब्रह्मजगंशित्याः ब्रह्मजगुंश्येत्याहुदीर्यस्य प्रियतमः प्रणेर्यज्ञानामित्याह प्रणेनायुप्रानामित्याहैषिव तो हो देप्चा ेतङ्कश्चन तरधिोर्म्यमानित्याह सर्वज्ञे नस्यास्वात्रञ्जहोर्देवानामित्याह जहोङ्केन देवानां च मसो देवपानमित्याह न आद्रव्यमस्मे जनये दावः देवाल यजमानाय त्याह यजमानमेवै तैन वधयत्यग्निमग्नामहसौ ममावहेत्याह देवता ये वद्यथा पूर्वहुमा यथा देवा व्यवहस या दातवे दयित्याहाग्निमेपदत्सोस्त्यम्भिजो देवेऽभ्यो हव्यं महत्यग् देत्याहाद्य वै देवाना कुम्भोदाय येवाना कुम्भोदातं वृमे स्म भयमित्याहात्मानमेव सत्त्वङ्गमयति साधु ते यजमान देवदेशमेवैतामाशास्ते यद्ब्रूयाद्भ्यो होता रमवृथा यत्यग्निनो भयतोनम् परिगृह्णीयात् रमायुधस्यात्यजमानदेवत्या वेजुर्भ्यातमिव देवत्या बे ब्रूयाद्भ्यातमिमस्मै जनयेऽभ्यदमदेवर्य ृजमाश्च स्वेत्याह यजमानमेवैतेन वर्धयति देवायममित्याह देवानक्यै जावति विश्वमा रामित्यामृष्टज्ञै गामती राम है देवागीरेण्यान्नमस्याम नमस्याम यज्ञिगादित्याह मनुष्या वा हिरेण्या पुरा नमस्या देवा यज्ञिया देवता एव तद्यथा भागम् यजति ैजस्त्रिजाननुब्रोजाद्राजन्यस्य त्रयो वा अन्ये राजन्याः पुरुषा ब्राह्मणो वैश्यश्रोद्रस्तानेव सा अनुगाकरोपञ्चदशानुब्रोजाद्राजन्यस्य पञ्चदशो वेदा जन्यस्व गेवस्तो मे प्रतिष्ठापयति त्रष्टु भा परिदध्यादिन्द्रियम् वे द्रष्टगिन्द्रियका वः खलु वेदाजन्यो स्मादिन्द्रियं परिगृह्णाति कामय ब्रह्मवर्चसमस्त्यधित्र्या परिदध्यात् ब्रह्मवर्चदम् वै गायत्र्ये ब्रह्मवर्चद भवति सप्तदशानु वैश्यश्च सप्तदशो वै वैश्वस्त्वम प्रतिष्ठा वयति जगत्या परिदध्यात् जागता वै पशवः पशुकामः वै वैश्यो जगत्यैवास्मै पशोन् परिगृह्णा विंशतिमनब्रोजात् प्रतिष्ठा कामस्यैक विंशस्तोमानाम् प्रतिष्ठः प्रतिष्ठेत्ये चतुर्विंशति मनोब्रोजः ब्रह्मवच्चसगामस्य चतुर्विंशत्यक्षरागायत्रिकायत्रे ब्रह्मवच्चदङ्गायत्रियैवास्मै ब्रह्मवर्चतमवरन्ध त्रिविंशदमनब्रोजादन्नकामस्य त्रिविंशदक्षरात्रम् विनायैवास्मान्नाद्यमवरन्ध ृकं शदमनब्रूजात्पदिष्टा कामस्य द्वात्रिकं सदक्षरा नष्टकनष्टन्ददाम् प्रदक्षे क्षत्रिकम् समनब्रूजात् पशुकामस्य क्षत्रिकं स नक्षरापशवृहत्यैवास्मे पशोनवन्धे कृतश्चत्वारिकं सरमनब्रूयादिन्द्रियकामस्यत्वारिकं स नक्षरात् तृष्टगेन्द्रियम् न्धेष्टायत्तारिकम् शदमनम् ब्रोजात् पशुकामस्याष्टादत्तारिकम् शाजगीजागदा जगत्यैवाशोनवरुन्धे सर्वाणि छन्दा कश्चन ब्रोजान् बहुयाजिनः सर्वाणि वा मेधश्च छन्दाकश्च वरुद्धानि बहुजाज्य पदमिदमनव्रोजानपदमिदस्यावरुद्ध ेदं मनुष्याणां प्राजेनावेदं पितॄणामुपवेदं देवानामुपव्ययते देव लक्ष्मेव तत्परुते तिष्ठण्डन् वा हतिष्ठण्डुश्च लोकस्याभिजित्या आसीनो यस्मिन्नेव लोके प्रतिष्ठति यत् क्रौञ्च मन्वाः सुरं तद्यन्मन्त्रं नृन्तरा तत्सदेवमन्तरा नोच्चनं सदैव रुन्धेथ परिमितञ्च परिमितञ्चागश्चैव्यागश्चावरुन्धेथो देवलोकञ्च ष्टोकं चाभिजयति देवा वैलामिधेनेरलोक्यज्ञान्न पश्यान् स प्रजापयस्तोष्टेवाघारमाघारणस्त वै देवाभिज्ञमन्नपश्यनु यत्तोारयति दे यज्ञस्यानुख्यात्याथो सामिधेनेरैवाभ्यत्यलोक्षो भवति एवं वेदाथ ेवैस्तृप्य प्रयया वसुधर्य देवं वेदयदेकया धारयदेकान् प्रीणि द्वाभ्यान्त मनसाकारयनसामाखारम् वहामेति वाक्रवीरहन्देव प्रजापतिम् प्रष्टमेतांसु प्रजापदूते मनसो मनसः ध्यायधिक न्नवाचायुहमन्नित्यप्रदे तस्मान् मनदा प्रजापदयधि प्रजापदय प्रजापदे संवाहापुराद्यैनान्त्र मध्यमन्त्रयोगेन प्राणा प्राणानैवाभिजयनेत्रदक्षिणाद्यन्त लोका इमानेव लोकानभिजयनेत्रुपुराभ्यन्तयोगेनैव भयाना स्कन्धानस्तानेवभिजय रूपभागे नित्ययो वैदेव लोकादेव लोकानेवाभिजयति द्वादशतं पद्यन्ते द्वादशमासामेव प्रीणाक्षरमेव बाहुवधारितु वर्गस्य लोकस्य समष्ट्याधारमाघारयति तिरेषु भर्गो लोकस्तु वर्गमेवास्ते लोकं प्ररोचयत् त्रिजुमाघारयत् त्रिजुरुभिः प्राणस्तन्दनमाघारयति प्राणा त्यामहत्येज कामयप्रवाजकस्यादितिहन्तस्याघालयम्भन्नयदि ताजप्रमेयदेवा ध्रुवाघारमाधार्य ध्रुवाकम् समनख्यात्मन्नेव यज्ञस्य प्रजापतिम् प्रश्नैताकं स प्रजापतिर्ब्राह्मणमब्रवीदेतस्विद्ब्रूहे देवाश्रेवा ुरायस्यैवम् विदुडः प्रभरम् प्रवृणते भवत्यात्मना परास्य भ्रातव्या भवति जड्राह्मणश्चाब्राह्णश्च प्रष्टमे जाताम् ब्राह्मणाय जद्ब्रोया जडब्राह्मणायाध्याहात्मनेऽध्याः यद् ब्राह्मणम् पराः मानम् पराः तस्मा ब्राह्मणोपरोच्यः ष्णो चित्राम् अपाल्लपादाख्यस्थादुपस्थम् जैवानामोर्ध्वो विद्युदम् वसानः परश्चेष्ठम् वहमानम् वहन्ते स्पहन्ति जेः समञ्ज्ञायन्त्युपयन्त्यन्याः समानमोर्वन्नम् समपान्नपादम् परितस्थुरापः तपस्पे राजपदयोज्यमानात् परिशन्त्यापः स्वशुक्वेण शक्मणाेवणे तानो मृणाच येजे इन्द्रावरुणायमध्वराय ये नेर्घप्रयजमदयोमश्यति भयम् जयेम प्रदनादोढ्यः आनोमित्रावरुणाप्रवाहवाज्ञे वरुणस्य विद्वान् देवस्य हेणोपयादिज्येष्ठाः ोषिताना यस्माद्वे चन्द्रोत् सर्वे मम सुहवो न प्रायमज्ञर्भरदस्य चन्द्रे वियत्सौर्यो नौनम् प्रदनासुतस्थो गीता यदेव्यो अतिथिः शिवो नः प्रत्यु धान्यः प्रतीकम् स्व विदुष्टरघुम् सेम सयक्षत्रस्मा वयिनानि विद्वान् प्रहव्यमृते च वोचते अगुम्भोमुचे जयन्माविन इन्द्रेन्द्रक्षत्रमिन्द्रिगाणि शतक्रतोनुतेदायि ओ समिधो गजति वसन्तमेव तो नामवरुन्धे तनो नपादम् गजति ग्रेष्टमेवावरुन्ध इतोजति वरिष्ठादेवावरुन्धे बलिषजति शरदमेवावरुन्धे हाकार न्तमेवावरुन्धे तस्मात् स्वाहाकृता हेमन्वशवोपसेजन्ति समिधाुषसगेव देवतानामवरुन्धे तनोऽनवासं गजति यज्ञमेवावरुन्ध इवा यजति पशुमेवावरुन्धेभिजति प्रजामेवावरुन्धे समानयतौ वृतस्तेजो वाहाज्ञं प्रजापरिह प्रजा सेवतेजो तथा स्वाहाकारं यजति वाचमेवावरुन्धे दश सम्पद्यन्ते देवाद्यन्धे समिधो यस्मिन्नेव लोके प्रतितिष्ठति तन्नो नजति यज्ञदेवान्तरिक्ष प्रतिष्ठति नो यजति पजक्ष्मेव प्रतितिष्ठति परिहृर्यजति यगेव देवया नास्पन्था नस्ते प्रतितिष्ठति स्वाहागारं यजति सुमग्रदेव लोके प्रतितिष्ठति चेतावन्दो मे देवलोका धा पूर्वम् प्रतिगच्छति देवासुरायेषु लोकेश्व स्पर्धन्धते देवा प्रयालेरेभ्यो लोकेभ्योऽसुरान् प्राणुदन्ततत् प्रयेभ्यो लोके भ्रातरम् या नुदते अभिक्रामञ्जुहात्यभिजत्ये यो वे प्रजानाम् मिथुनम् वेदप्रजया वसुभिर्मुनैर्जायते समिधो भक्तीरिभगजति तनोनपातमेकमिव मिथुनम् भक्तीरिभगजति परिहृतेकमिव मिथुनम् तदेतद्वै प्रजानाम् अनिष्टा देवताः सन्नसाधुना यज्ञमजिघागुंसन्ते देवागायत्रें हन् पञ्चाक्षराप्राचेनानित्रेण प्रदेजेनानि ततो वर्म यज्ञाय भवद्वर्म येत्रयाजानो याजा यज्ञं देवर्मैवज्ञाय क्रियदेवर्म यजमानाय भ्रातु्याभितस्मात् ततो सं पुरस्ताश्चाद्ध पुरारक्षोऽ स्वाहाकारेण प्रजाजेषु यज्ञं सर्गस्थाप्यमपश्यन्तज्ञ स्वाहाकारेण प्रजातेषु समस्थापयन्ति वायेन यज्ञं छिन्दन्ति यत् स्वाहाकारेण प्रजा येषु सर्गस्थापयन्ति प्रजा जान्वाहवेगस्यभिहारे यज्ञस्य सन्दत्या हविदेवाकरसो यथा पूर्वमुपैदिता वै प्रजाजा प्रजानो Jaja, Jajaja, या जानवेयस्यभिघारयति विदेवदत्पुत्रेण साधारणम् कुरुते तस्मादाहुर्यश्चैवम् वै ऋणश्च न कथा पुत्रश्च केवलम् कथा साधारणम् विजयत्यस्कन्दमेवदद्यत्रजाय स्वेक्तेन स्कन्दति गायत्रेव तेन गर्भम् धत्तेषा प्रजाम् अशो यजमानाय प्रजनयति चक्षुषे वा एते यज्ञस्य यदाज्य भागौ यदाज्यभागौ यजति चक्षुषे एव तद्यज्ञस्य प्रतिदधादिपोर्वाद्ये जुहोदितस्मात्पोर्वाद्धे चक्षुषे प्रबाहुजुजितस्मात् प्रबाहुश्चक्षुषेदेव लोकम् वाक्षिणाम् नयोः लोकयो नेतौ देवतानां यदग्ने सोमावन्तरा देवता युज्येते देवतानां विधत्ते तस्माद्धाज्ञा मनुष्या विधृता ब्रह्मपादिना वदन्ति किञ्चे यजमानः कुरु तेजे धान्यतो दधश्च पुशोन् राधानो मनोच्च चัจछागस्य शुषानेन निजतितेन आन्यतो ततोदाधार्च मनोच्च हविष्यितानि निजितेन भयतो ततोदाधारमो धनवते पुराणवाकया भवति मोद्धानमे वेनकं समानांगोति दिगत्त्वा हिददेव् ज्ञातुं गस्तेव पदान नयवतः केशिनकं तथा वेंकेशीधात्त्यगामिदवाद सप्तपदान् तेषक्पदे निष्पाय्यं योक्तादैगस्येवे न प्रजातान् भ्रातव्यान् नृदधे प्रति जनशमानानयस्यैवोकयानड्वान् धुनक्ति पुरस्ताल्लक्ष्मादवाच्या भवति जातानेव भ्रातृव्यान् प्रदपरिष्टाल्लक्ष्माया नैव प्रतिदते पुरस्ता लक्ष्मापुरोऽनुवाक्या भवत्यस्मिन्नेव लोके ज्योजद्ध वरिष्टाल् लक्ष्मायाज्ञामस्मिन्नेव लोके ज्योजर्धत्ते ज्योतिष्मन्तामस्माजिमो लोको भवतो पुरस्तान् लक्ष्मापुरोऽनुवाक्या भवति तस्माधना वरिष्टाल् लक्ष्माया तस्मात् जगदाध्येन धेन एवं वेदभुक्तयेन वेद वज्र आद्यं वज्राज्यभागौ वज्रोपषट्कारस्त्रपदमेन वज्रं संभृत्य भाजम् कारे पुरो ब्रह्मन्नेवया प्रणयति वटत्कारेण परोनुभाग्यया दत्त प्रयच्छतिवटत्कारेण वैदि त्रिपदा वरोनुवाक्या भवयत्रे हि मे लोकायेष्वेव लोकेभ प्रतितिष्ठति जदस्पदापदने पसो नवरन्धेद्यक्षदावषट्कालोष्वेव वरिष्ठात्मज तिष्ठति गायत्रे वाक्या भवयत् पृष्टव्याद्यैषा वै सप्तपदासक्मरे यद्वाने नेतया नेवा शिक्षन्तरसक्मनिज एवं वेद शक्मा एव यत् प्रजापदर्देवेभ्यो यज्ञान् व्याधिषत्सहात्मन्नाद्यदन् देवाब्रवन्ने वैज्ञायभागावपस्त्रणानभिकारयाते तस्मात् राज्यभागावपवस्त्रणान्त्यभिकारयन्ते ब्रह्मवादिना वदन्ति कस्मात् सत्यातमान्य भवेदश्य यात प्राजाभक्त्यमिध्रो जादया दयामाभिदेवाना प्रजान्दांसिदेवेभ्योणवभागान्यं वक्ष्यामेतश्चतुरभक्तमधारयन् परोनुभाग्यायै याज्ञायै देवतायैव प्राणायै चतुरभक्तञ्जहोरिछन्दायस्येवदप्रेणाजिदान्यस्य प्रीतानुदेवेभ्योऽहम् विदमुत्तमास्तु भर्कम् लोकमायन्तस्तव्यमायन्ते पश्यन् पुनोटाशङ्कोर्मम् भोतगुम् धन्तमब्रमन्निन्द्राय धृस्वबृहस्पदये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्ते ब्रह्मन्नग्नये ध्रियस्ते भास्यायाञ्च पौर्णभागस्य लोकस्याभिजिते तमब्रवणुत्य वाक्षत्येवत्युपरिष्टादभ्यभ्याधस्तादुवारक्ष्युवर्गस्य लोकश्चेदर्वाणि कपालान्यभिष्पुरो स्मान् मागुंसेनाक्षिछन्नं वेदेनाभिवादे तस्मात्यं प्रच्युतं वादेतदस्मान् लोकादगदं देव लोकैयक्षिलुम्हविरनभिघारितमभिहार देवत्रय वैलद्गमयति यद्येकं कपालं नश्चेदे गोपाधः संवत्सरस्यान वेदस्यादमानष्टमीजेद्वेदश्चेता द्वौ मासौ संवत्सरस्यानवेदौ स्यादापनमानष्टमीजेत संख्यायोद्वासयति जलमानस्य गोपीठादिनश्चेदािणान्यत्वमेकपालमश्विनौ वै देवानाम् भ्यामेवास्मै भेषजङ्करीद्यावापसंज्ञकेकगमा भवत्यनयोर्वा एतन्नश्च दयन्नश्च प्रनयोरेवेन द्विन्द्रजप्रतिष्ठित्यै देवस्य तासमिद प्रथमय निष्ठमातत्पोच्याश्विना बाहुभ्यामित्याहाश्विनो हि देवानामद्धर्यु आस्ताष्णो हस्ताभ्यामित्याहयत्ते सदभक्तिर शिवानस्मत्योक्त त्रिषतो मधयित्याहवज्रमेव तत्सर्गश्च निर्भ्रातुर्याय प्रहरिष्यान् सम्भयितुर्हरत्येतावदेवै पृथिवी यावदेवे दिस्तस्याेत ेव भ्रातर्गन् निर्भजति तस्मान्नाभागम् निर्भजन्त्रिर्हर निमे लोकाभ्येभ्योकेभ्यो निर्भजति सोष्ठे निर्भयत्युद्धृद्धन्तिदो परा भवन्ति छिलत्यभ्यादव्यस्यैविलत्यपितदेवत्यादिखाते यदि खलति प्रजापतिनायज्ञमुखेन प्रतिष्ठायै खरति यजमानमेव प्रतिष्ठाङ्गमयति यक्षिणतो प्रजावे पदभः पुरे पुरेशम् पृदयेनं पदभिः पुरेश पन्दरोत्युत्तरम् परिग्राहम् परि गृह्णात्येतावदेवे पृथिवी यावदेवे जष्टस्यानेतावत एव भ्रातर्यर्भज्यात्मनवुत्तरम् परिग्राहम् परि गृह्णादि क्रूर वा एतत्करो द्विधा अधिस्पधातिजोप्य रक्ष पः जनेष्टस्य पद्मन् साधयति यज्ञस्य सङ्गत्ययम् पश्चात् सन्ध्यायच्छुदैव अर्पयति